अथ द्वितीयः सर्गः कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनम् प्रति आमन्त्र्यसमुनीन् सर्वान् लक्ष्मणानुचरो रामो वनमध्यम् ददर्शः सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते ददर्श गिरिशृङ्गाभम् पुरुषादम् महास्वनम् गभीराक्षम् महावक्त्रम् विकटम् विकटोदरम् बीभत्सम्विषमम् दीर्घम् विकृतम् घोरदर्शनम् वसानम् चर्म वैयाघ्रम् रुधिरोक्षितम् सर्वभूतानाम् व्यादितास्यमिवान्तकम् त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषताम् दशा सविषाणम् वसा दिग्धम् गजस्य च शिरोमहत् अवसज्यायसे शूले विनदन्तम् महास्वनम् स रामम् चैव सीताम् दृष्ट्वा च अभ्यधा सक्रुद्ध प्रजा काल इवाक सकन्नाद चालयन मेदिनी अंकनादा वैदेमपक्रम्य तदाब्रवीर युवा जटा जीरधर सभार्यौ क्षीण जीवितौ प्रविष्ट दंडकारण्यं शरचापासी पानौ कथम् तापसयोर्वाञ्च वासः प्रमदया अधर्मचारिणौ पापौ कौ मुनिदूषकौ अहम् वनमिदं दुर्गं विराधो नाम राक्षसः चरामि सायुधो नित्यमृषिमांसा निभक्षयन् इयम् नारी वरारोहा मम भार्या भविष्यति युवयोः पापयोश्चाहम् पास्यामि रुधिरम् वृधे तस्यैवम् ब्रुवतो दुष्टम् विराधस्य दुरात्मनः श्रुत्वा सगर्वितम् जनकात्मजा सीता प्रवाते कदली यथा ताम् दृष्ट्वा राघवः सीताम् विराधाम् कगताम् पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् मम भार्याम् शुभाचाराम् विराधाङ्के प्रवेशिताम् अत्यन्तसुखसंवृद्धाम् राजपुत्रीम् यशस्विनीम् यदभिप्रेतमस्मासुप्रियं प्रियम् वरवृतम् च कैकेय्यास्तु सु सुसंवृत्तम् क्षिप्रमद्यैव लक्ष्मणा यानतुष्यति न राज्येन पुत्रार्थे दीर्घदर्शिनी ययाहं सर्वभूतानाम् प्रियः प्रस्थापितो वनम् अद्येदानीम् स कामासा यामातामध्यमा मम परस्पर्शात्तु वैदेह्य पितुर्विनाशात् सौमित्रे स्वराज्यहरणात् तथा इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः का अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् अनाथ इव भूतानाम् नाथस्त्वम् वासवोपमः मया प्रेष्येण काकुत्स्थ किमर्थम् परितप्यसे शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः विराधस्य गतासोर्हि राज्यकामे मम क्रोधो भरते यो बभूवः तम् विराधे वि वज्री वज्रमिवाचले मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसी व्यपनयतु तनोश्च जीवितम् पततु ततश्च महीम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे द्वितीयः